षडधिकशततमोऽध्यायः जनमेजयौ वाच किम् कृतम् कर्म धर्मेण येन शापमुपेयिवान् कस्य शापान् च ब्रह्मेक्षः शूद्रयो नावजायत वैशम्पायनौ वाच बभूव इति विश्रुतः धृतिमान् सर्वधर्मज्ञः सत्ये तपसि स्थितः स आश्रमपदद्वारि वृक्षमूले महातपाः ऊर्ध्वबाहुर्महायोगी तस्थौ मौनव्रतान्वितः तस्य कालेन महता तस्मिंस्तपसि वर्ततः तमाश्रममनुप्राप्ता दस्यवो लोप्रहारिणः अनुसार्यमाना बहुभिरक्षिभिर्भरतर्षभ ते तस्यावसथे लोप्त्रम् दस्यवः कुरु सत्तमा निधाय च नागते बले तेषु लीनेश्वथो शीघ्रम् ततस्तद्रक्षिणाम् बलम् आजगामततो पश्यंस्तम् ऋषिम् तस्करानुगाः तमपृच्छंस्ततो राजंस्तथावृत्तम् तपोधनम् कतमेन पथा याता दस्यवो द्विजसत्तम तेन गच्छाम हे ब्रह्मन् यथा शीघ्रतरम् वयम् तथा तु रक्षिणाम् तेषाम् ब्रुवतां स तपोधनः न किञ्चिद्वचनम् राजन्न ब्रवीत्साध्वसाधु साध्वसाधुवा ततस्ते राजपुरुषा विचिन्वानास्तमाश्रमं ददृशुस्तत्र ततः शङ्कासमभवद्रक्षिणाम् तम् मुनिम् प्रति संयम्यैनम् ततो राज्ञे दस्योंश्चैवन्यवेदयन् तम् राजा सहतैश्चौरैरन्वशाद्वध्यतामिति स रक्षिभिस्तैरज्ञातः शूले प्रोतो महातपाः ततस्ते शूलमारोप्य तम् मुनिम् रक्षिणस्तदा प्रतिजग्मुर्मही पालम् धनान्यादायतान्यथा शूलस्थः धर्मात्मा कालेन महता ततः निराहारोऽपि विप्रर्षिर्मरणम् नाभ्यपद्यत धारयामास च प्राणान् ऋषींश्च समुपानयत् शूलाग्रे तप्यमानेन तपस्तेन महात्मना सन्तापम् परमं जग्मुर्मुनयस्तपसान्विताः ते रात्रौ शकुना सन्निपत्यतु भारत दर्शयन्तो यथाशक्ति तमपृच्छन् द्विजोत्तमम् श्रोतुमिच्छामहे ब्रह्मन् किम् पापम् कृतवानसि येनेहसमनुप्राप्तम् शूले दुःखभयम् महत् इति श्रीमहाभारते आदिपर्वणि सम्भवपर्वणि अणीमाण्डव्योपाख्याने षडधिकशततमोऽध्यायः